सप्तदशोऽध्यायः वासुदेव उवाच जातस्य भरते वंशे तथाकुन्त्या सुतस्य च यावै युक्ता मतिः या प्रदर्सिता प्रदर्शिता न स्म मृत्युं वयं विद्म रात्रौ वा यदि वा दिवा, दिवा। न चापि एतावदेव पुरुषैः कार्यं हृदयतोषणं नयेन विधिदृष्टेन इदुपक्रमते परान् सुनयस्यानपायस्य संयोगे परमः क्रमः सङ्गत्या जायते साम्यं साम्यञ्च न अनयस्यानुपायस्य संयुगे परमः क्षयः संशयो जायते साम्याज्जयश्च न भवेद्वयोः ते वयम् नयमास्थाय शत्रुदेहसमीपगाः कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः पररन्ध्रे पराक्रान्ताः स्वरन्ध्राभरणे स्थिताः केरति व्यूढ़नेकैरबलैर्न युदरी सह बुद्धिमता होचते